वधपर्व एकादशोध्यायः धृतराष्ट्र उवाच किर्मीरस्य वधं क्षत्तः श्रोतुमिच्छामि कथ्यताम् रक्षसा भीमसेनस्य कथमासीत् समागमः विदुर उच शृणु भीम से कर्मेदमतिमाषकम श्रुतपूर्व मा तथा तु पुनः पुनः इत प्रयाताजेन्द्र पांडवा दूत निर्जिता जग्सिहो राम्यकम्नादनम रात्रो निशीधे ताभी गतेर्धसम नृप प्रचारे पुर रक्षस घोरकर्मण तद्वनम तापसान गोपाल वनचारिण दूरापरिहर स्म पुषादया किल तत्र तेषा प्रभता मग्मावृत्भत दीप्ताक्षंषणम रक्षा सोलमुखं प्रत्यपत बाहू महांत तथा भयानक स्थित पथान ये कुहा स्पष्टाष्टदंष्ट्रम् ताम् राक्षम् प्रदीप्तोर्ध्वसिरोरुहम् सार्करश्मितडिच्चक्रम् सबलाकमिवाम्बुदम् सृजन्तम् राक्षसीम्मायाम् महानादनिनादितम् मुञ्चन्तम् विपुलान्नादान् सतोऽयमिवतो यदम् तस्य नादेन सन्त्रस्ताः पक्षिणः सर्वतो दिशम् विमुक्तनादाः स्थलजा जलजैः सह सम्प्रदृतमृगद्वीपमहिषर्क्षसमाकुलम् तद्वनम् तस्य तस्योर्वाताभियतास्ताम्रपल्लवबाहवः विदूरजाताश्चलताः समाश्लिष्यन्ति तस्मिन्क्षणेध प्रववौ मारुतो भृषदारुणः रजसा संवृतं तेन नष्टज्योतिरभूर्नभः पञ्चानां पाण्डुपुत्राणामभिज्ञातो महारिपुः पञ्चानामिन्द्रियाणां तु शोकावेश इवातुलः सदृष्ट्वा पाण्डवान् दूरात् कृष्णाजिनसमावृतान् आवृणोत्तद्वनद्वारं मयनाक इव पर्वतः तं समासाद्यवित्रस्ता कृष्णाकमलोचना अदृष्टपूर्वं सन्त्रासा न्यमीलयतलोचने दुःशासनकरोत्सृष्टविप्रकीर्णसिरोरु था नदी वा कुलताङ्गता तत्र जगृह पञ्चपाण्डवाः इन्द्रियाणि प्रसक्तानि विषयेषु यथा अथ ताम् राक्षसीम् मायामुत्थिताम् घोरदर्शनाम् रक्षोघ्नैर्विधैर्मन्त्रैर्धौम्यः सम्यक् प्रयोजितैः पश्यताम् पाण्डुपुत्राणाम् नासयामासवीर्यवान् सनष्टमायोऽतिबलः क्रोधविस्फारिते क्षणः काममूर्तिधरः क्रूरः कालकल्पोऽ व्यदृश्यता तमुवाच ततो राजा दीर्घप्रज्ञो युधिष्ठिरः को भवान् ते क्रियताम् कार्यमुच्यताम् प्रत्युवाचाथ तद्रक्षो धर्मराजम् युधिष्ठिरम् अहम् बकस्य वैभ्राता किर्मीर इति विश्रुतः वनेऽस्मिन् काम्यके शून्ये निवसामि गतज्वरः युधि निर्जित्य पुरुषानाहारम् नित्यमाचरन् भक्ष्यभूता ममान्तिकम् युधिनिर्जित्यवः सर्वान् भक्षयिष्ये वैशम्पायन उवाच युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः सर्वं सर्वम् गोत्रनामादिभारत युधिष्ठिर उवाच पाण्डवो धर्मराजोऽहम् इति ते श्रोत्रमागतः सहितो भ्रातृभिः भी सर्वै भीमसेनार्जुनादिभिः भी। हृतराज्यो वने वासम् वस्तुम् कृतमतिस्ततः वनमभ्यागतो घोरमिदम् तव परिग्रहम् विदुर उवाच किर्मीरस्त्वब्रवीदेनम् दिष्ट्या देवेरिदम् मम उपपादितमद्येह चिरकालान्मनोगतम् भीमसेन वधार्धम् हि नित्यमभ्युच्यतायुध चरामि पृथिवीम् कृत्स्नाम् नयनम् चासादयाम्यहम् सोऽयमासादितो दिष्ट्या भ्रातृहाकाङ्क्षितश्चिरम् अनेन हि मम भ्राता बको विनिहतः प्रियः वैत्रकीयवने राजन् ब्राह्मण छद्मरूपिण विद्याबलमुपाश्रित्य नह्यस्य उरसम् बलम् हिडिम्बश्च सखामह्यम् दयितो वनगोचरः हतो दुरात्मनानेन स्वसा चास्य हृता पुरा सोऽयमभ्यागतो मूढो ममेदम् गहनम् वनम् प्रचारसमयेऽस्माकमर्धरात्रे स्थिते समे अद्यास्य यातयिष्यामि तद्वैरम् चिरसम्भृतम् तर्पयिष्यामि च रुधिरेणास्य भूरिणा अद्याहमृणो भूत्वा भ्रातुः शान्तिम् लब्धास्मि परमाम् हत्वा राक्षसकण्टकम् इति तेन पुरा मुक्तो भीमसेनो बकेन वै अद्यैनम् भक्षयिष्यामि पश्यतस्ते युधिष्ठिर एनम् हि विपुलप्राणमद्य हत्वा वृकोदरम् सम्भक्ष्य जरयिष्यामि यथाकस्थ्यो महासुरम् एवमुक्तस्तु धर्मात्मा सत्यसन्धो युधिष्ठिरः नैतदस्तीति सक्रोधो भत्सयामा स राक्षसम् ततो भीमो महाबाहुरारुज्य तरसाद्रुमम् दसव्याममथोद्विद्धम् निष्पत्रमकरोत्तदा चकार सज्जम् गाण्डीवम् वज्रनिष्पेषगौरवम् निमेषान्तरमात्रेण तथैव विजयोऽर्जुनः निवार्य भीमो जिष्णुम् तम् तद्रक्षो मेघनिस्वनम् तिष्ठतिष्ठेति भारत इत्युक्तेनमतिक्रुद्धः कक्ष्यामुत्पीड्य पाण्डवः निष्पिष्य पाणिना पाणिम् सन्दष्टौष्ठपुटोबली तमभ्यथावद्वेगेन भीमो वृक्षायुधस्तदा यमदण्डप्रतीकाशम् ततस्तम् तस्य मूर्धनि पातयामासवेगेन तदुदस्तमलातम् तु भीमः प्रहरताम्बरः पदासव्येन चिक्षेप तद्रक्षः पुनराव्रजतु किर्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् दण्डपाणिरिवक्रुद्धः समरे प्रत्यधावता तद्वृक्षयुद्धमभवन्महेरुहविनाशनम् वालिसुग्रीवयोर्भ्रात्रोर्यथा स्त्रीकाङ्क्षिणोः पुरा